क्षन्तुमर्हति काश्यप एवमुक्तो नत शिरा मुनिर्नोवाच किञ्चन मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् अभक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् फलमूलाशिनो दान्तान् कृशान्धमनि सन्ततान् व्रतिनो जटिलान्मुण्डान् वल्कलाचिनसंवृतान् समाहूय मुनीन् कण्वः कारुण्याधिदमब्रवीत् मया तु लालिता नित्यम् मम पुत्री यशस्विनी वने जाता विवृद्धा च न जानाति किञ्चन आश्रमेण पथा सर्वैर्नीयताम् क्षत्रियालयम् तथेत्युक्त्वा सर्वे प्रातिष्ठन्तमहौजसः शकुन्तलाम् पुरस्कृत्य दुष्यन्तस्य पुरम् प्रति गृहीत्वामरगर्भाभम् पुत्रं कमललोचनं आजगामततः शुभ्रूर्दुष्यन्तम् विदिता त्वनात् अभिश्रुत्य च राजानम् विदिता च प्रवेशिता सह तेनैव बालार्कसमतेजसा निवेदयित्वा सर्वे आश्रमं पुनरागताः पूजयित्वा यथा शकुन्तला अभिवादय राजानम् पितरं ते दृढव्रतम् एवमुक्त्वा तु पुत्रम् सा लज्जानतमुखी स्थिता स्तम्भमालिङ्ग्य राजानम् प्रसीद स्वेत्युवाच सा शाकुन्तलोऽपि राजानम् अभिवाद्य कृताञ्जलिः हर्षेणोत्फुल्लनयनो राजानम् चान्ववैक्षत दुष्यन्तो धर्मबुद्ध्या चिन्तयन्नेवसोऽब्रवीत् दुष्यन्तौ उवाच किमागमनकार्यम् ते ब्रूहित्वम् वरवर्णिनि करिष्यामि न सन्देहः सपुत्राया विशेषतः वाच प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तमा अयम् पुत्रस्त्वया राजन् यौवराज्येऽभिषिच्यताम् त्वया ह्ययम् सुतो राजन्मय्युत्पन्नः सुरोपमः यथा समयमे तस्मिन् वर्तस्व पुरुषोत्तम यथा मत्सङ्गमे पूर्वम् यः कृतः स्मरस्व महाभाग कण्वाश्रमपदम् प्रति सोऽथश्रुत्वैव तद्वाक्यम् तस्या स्मरन्नपि अब्रवीन्न स्मरामीति क्य दुष्टतापसी धर्म काम सबंधम न स्मराया सह गति वाम यद्वासी तत्कु सव मुक्ता वरारोह व्रीड़िते तपस्वनी निस्स दुखन तस्थ स्थूणे निश्चा कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत आकारम् गूहमाना च मन्युना समीरिता तपसा संभृतं तेजो धारया मासवैतदा तदा सा मुहूर्तमिव ध्यात्वा दुःखामर्शसमन्विता जानन्नपि महाराज कस्मादेवम् प्रभाषसे न जानामीति निःशङ्कम् यथान्यः प्राकृतो जनः अत्रते ते हृदयम् वेद सत्यस्यैवानृतस्य च कल्याणम् वदसाक्ष्येणमात्मानमवमन्यथाः योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते किम् तेन न कृतम् पापम् चौरेणात्मापहारिणा एकोऽहमस्मीति च मन्यसे त्वम् न हृच्छ्रयम् यो वेदिता कर्मणः पापकस्य तस्यान्तिके वृजिनं वृजिनम् करोषि धर्म एव हि साधूनाम् सर्वेषाम् हितकारणम् नित्यम् मिथ्याविहीनानाम् न च दुःखावहो भवेत् मन्यते पापकम् कृत्वा न कश्चिद्वेत्ति मामिति विदन्ति चैनम् देवाश्च यश्चैवान्तरपूरुषः आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो यमश्च अहश्च रात्रिश्च उभे च धर्मश्च जानाति वृत्तम् यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् हृदिस्थितः क्षेत्रज्ञो यस्य तुष्यति न तुष्यति यस्यैष पुरुषस्य दुरात्मनः तम् यमः पापकर्माणम् वियातयति दुष्कृतम् योऽवमन्यात्मनात्मानमन्यथा प्रतिपद्यते न देवा श्रेयांसो यस्यात्मापि न कारणम् प्राप्तेति मामेवम् मा वंस्थाः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 जायायास्तद्धि जाया त्वम् पौराणाः कवयो विदुः यदागमवतः प्रजायते तत्तार इति सन्तत्या पूर्वप्रेतान् पितामहान् पुन्नाम्नो नरकाद्यस्मात्पितरम् त्रायते सुतः तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा पुत्रेण लोकाञ्जेति पौत्रेणानन्त्यमश्नुते अथ पौत्रस्य पुत्रेण मोदम् ते प्रपितामहाः सा भार्याया गृहे दक्षा सा प्रजावती सा भार्याया पतिप्राणा सा भार्याया पतिव्रता अर्धम् भार्या मनुष्यस्य भार्या श्रेष्ठतमः भार्या मूलम् त्रिवर्गस्य भार्यामूलम् तरिष्यतः भार्यावन्तः क्रियावन्तः स भार्या गृहमेधिनः भार्यावन्तः प्रमोदन्ते भार्या भार्यावन्तः श्रियान्विताः सखायः प्रविविक्तेषु भवन्त्येताः प्रियम् वदाः पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै यः स दारः स विश्वास्यस्तस्माद्दाराः परा गतिः संसरन्तमपि प्रेतम् विषमेष्वेकपातिनम् भार्यैवान्वेति भर्तारम् सततम् व्यापतिव्रता प्रथमम् संस्थिता भार्या पतिम् प्रेत्य प्रतीक्षते पूर्वमृतम् च भर्तारम् पश्चात्साध्व्यनुगच्छति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 आवर्ताक्षण पा दृश्य पुत्राण सीता शीलाचार गुणास्तत्सपर्काशुशुभा जनता पुत्रशेव चाननम ह्लादते जनिता प्रेक्ष्य स्वर्ग प्राप्य पुण्य दह्यमनो दुखिशा न ह्लादन्ते स्वेषु दारेषु धर्मार्ताः सलिलेष्विव विप्रवासकृशादीना नरामलिनवाससः तेपि स्वदाराम् स्तुष्यन्ति दरिद्राधनलाभवत् सुसंरब्धोऽपि रामाणाम् न कुर्यादप्रियम् नरः रतिम् प्रीतिम् च धर्मम् च आत्मनोर्धामिति श्रौतम् सारक्षति धनम् प्रजाः शरीरम् लोकयात्राम् वै धर्मम् स्वर्गम् ऋषीन् पितॄन् आत्मनो जन्मनः क्षेत्रम् पुण्यम् रामाः सनातनम् ऋषीणामपि का शक्तिः स्त्रष्टुम् रामामृते प्रजाम् प्रतिपद्य यदा सूनुर्धरणीरेणुगुण्ठितः पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्यधिकम् ततः स त्वम् स्वयमभिप्राप्तम् साभिलाषमिमम् सुतम् प्रेक्षमाणम् कटाक्षेण किमर्थमवमन्यसे